इन्द्रकीलम् समासाद्य ततो तिष्ठद्धनञ्जयः अन्तरिक्षेति शुश्रावतिष्ठेति सवचस्तदा तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः अथा पश्यत्सव्यसाची वृक्षमूले तपस्विनम् ब्राह्म्या श्रियादीप्यमानं पिङ्गलं जटिलं कृशं सोऽब्रवीदर्जुनं तत्रस्थितं स्थितं दृष्ट्वा महातपाः कस्तुं तातेः सम्प्राप्तो धनुष्मान् कवचीशरी निबद्धासितलत् णः क्षत्रधर्ममनुव्रतः नेहशस्त्रेण कर्तव्यम् शान्तानामेष आलयः विनीतक्रोधहर्षाणाम् ब्राह्मणानाम् तपस्विनाम् नेहास्ति धनुषा न सङ्ग्रामोऽत्र कर्हि चित् निक्षिपैतद्धनु तात प्राप्तोऽसि परमां गतिम् ओजसा तेजसा वीर यथा नान्यः पुमान् क्वचित् तथा तमुवाच ततः प्रीतः सद्विजः प्रहसन्निवा वरं वृणीष्वभद्रं ते शक्रोहमरिसूदन एवमुक्तः सहस्राक्षम् प्रत्युवाच धनञ्जयः प्रणतो भूत्वा शूरः ईप्सितो ह्येष वै कामो वरं सैनं प्रयच्छ मे भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्